हरि ओं ऋचम् वाचम् प्रपद्ये मनो जजुः प्रपद्ये साम प्राणम् प्रपद्ये चक्षुः श्रोत्रम् प्रपद्ये वावो जहास उजो मयि प्राणापानौ जन्मे छिद्रां चक्षुको हृदयस्य मनसो वाति तृण्णाम् वृहस्पतिर्मे तद्वधातु भवतु भुवनस्य च भुवर्भुवा स्वा तत्सवितुवरेण्यं भगुदेवस्य धीमहि दियोः प्रचोदयात् त्वया नश्चित्र आभुवधूती सदा वृधाः सखां त्वया चिष्ठया वृताम् कस्त्वा सत्यो मदानमग्निष्ठो मत्सदन्धसा दृढाचिदारुजेऽवसु अभीखुणः सखीनामविता चरित्रेणाम् शतम्भवा स्यूतिभिः क या त्वान्न उवत्याभिप्रमन्दसे वृहन् कयास्तो त्रिभ्य आभर इन्द्रो विश्वस्य राजति शं नो अस्तु त्रिपदे शं वरुणः शं नो शन्न इन्द्रो वृहस्पतिः शं नो विष्णोरुक्रमः शं नो वातः पवताग्निशन्नस्तपतु सुवर्जः शं नः परजान्यो पर्जन्यो अभिवर्खतु अहानिशम्भवन्तु नः शग्निङ्गत्रीः प्रतिधीयताम् शन्न न शन्न भवतामवोभिः शन्न न इन्द्रावरुणारात हव्या शं न इन्द्रापू पीतये शञ्जोरविस्रवन्तुना स्यूना पृथिविनो भवा नृक्षरा निवेशनि दक्षादः अशर्मथ प्रथाः अपोहिष्ठामयो भुवस्तान उवर्जे दधातनो भैरणाय चक्षसे जो वः शिवतमोरसस्तस्य भाजयते ह नः उशतीरिव तस्मा अरङ्गमामभोजस्य क्षयायजिन्वथ आपो जनयथाचना द्यौः शान्तिरान्तरिक्षब् शान्तिः पृथिवी शान्तिरापः शान्तिरुखदयः शान्तिः वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वज्ञ शान्तिः शान्तिरे शान्तिः सा मा शान्तिरेधिते दृग्ह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्तम् मित्रस्याः चक्षुषा सर्वाणि भूतानि समी मित्रसि या चक्षुका समीयक्षामहे द्रेते दृगृह्ण माम् जुवक्ते सन्दृषि जिव्यासं युवक्ते सन्दृषि जिव्यासम् नमस्ते अरसे शोचिखे नमस्ते अस्त्वचिखे अन्यांस्ते अस्मत्तपान्तु हे त्वया पावकोऽस्मद्भक्तुं शिवो भव नमस्ते अस्तु विद्युते नमस्तेऽस्तनयित् नवे नमस्ते भगवन्नस्तु यतः स्वः समीहसे यतो यतः समीहसे ततो नो अभयङ्कुरु शन्नः कुर्प्रजाभ्यो भयन्नः पशुभ्यः सुमित्रियान् आप औखदयः सन्तु दुर्मित्रियास्तस्मै सन्तु जो अस्मान् वेऽष्टिजा वयं लिख्वाच्च हि तं पुरस्ताक्षुक्रमुच्छरत् पश्येम शरदः शतं जीवेम शरदः शतघ्शेणुयाम शरदः शतं ब्रभ्रमाम शरदः शतमधीनाः ्यामशरदः शतम् भूयस्त इति षट्त्रिंशः